श्रीमद्भागवत् महापुराणं महात्म्यम् अतियोऽध्यायः श्रीभागवत् की परम्परा औरका महात्म भागवत् श्रवणसे श्रोताओ को भगवद् धाम की प्राप्ति श्रुतवाच अथोद्धवस्तुतान् दृष्ट्वा कृष्णकीर्तीर्तन तत्परान् सत्यथ परिसृज्य परीक्षितमुवाच उद्धोवाच धन्योऽसि राजन् कृष्णैकभक्त्या पूर्णोऽसि नित्यता यस्त्वं निमग्नचित्तोऽसि कृष्णसङ्कीर्तनोत्सवे कृष्णपत्नीषु बद्रे च दृष्ट्या प्रीतप्रवर्तिताम् तवोचितमिदं तात कृष्णदत्नाङ्गवैभव द्वारकासेषु सर्वेषु धन्याये तेन संशयः येषां व्रजनिवासाय पासमादिष्टवान् प्रभुः श्रीकृष्णस्य मनसश्चन्द्रो राधास्य प्रभयान्वितः तद्विहारं वनं गोभिर्मण्डयन् रोचते सदा कृष्णचन्द्र सदा पूर्णस्तस्य षोडश या कलाः एवं वद्रस्तु राजेन्द्रपन्नभयभञ्जकः श्रीकृष्णदक्षिणे पादे स्थानमेतस्य वर्तते अवतारेऽत्र कृष्णेन योगमायाति भाविताः तद्बलेनात्मविस्मृत्या सीदन्त्येतेन संशयः ऋते कृष्णप्रकाशं तु स्वात्मबोधो न कस्यचेन् तत्प्रकाशसु जीवानां मायापि हितः सदाम् अष्टाविंशो द्वापरान्ते स्वयमेव यदा हरिः उत्सार्येणीञ्जां मायां तत्प्रकाशो भवेत्तदाम् स तु कालो गतिक्रान्तस्तेनेदम् अपरं शृणु अन्यदा तत्प्रकाशस्तु श्रीमद्भागवताद्भवेद् श्रीमद्भागवतं शास्त्रं यत्र भागवतैर्यदा कीर्तते श्रूयते चापि श्रीकृष्णस्तत्र निश्चितम् श्रीमद्भागवतं यत्र श्लोकं श्लोकार्थमेव च तत्रापि भगवान् कृष्णो वल्लभीभिर्विराजते भारते मानवं जन्म प्राप्य भागवतं न यै सुतं पापराधीनैरात्मघातस्तुतैः कृतः श्रीमद्भागवतं शास्त्रं नित्यं यै परिसेवितं पितुर्मातृश्च भार्याया कुलपङ्क्ति सुतारिताम् विद्याप्रकाशो विप्राणां राज्ञां शत्रुजयो विशां धनं स्वास्थ्यं च शुद्राणां श्रीमद्भागवताद्भवे योषितामपरेशां च सर्ववाञ्छितपूरणम् अतो भागवतं नित्यं को न सेवेत भाग्यवान् अनेकजन्मसंसिद्ध श्रीमद्भागवतं लभेत् प्रकाशो भगवद्भक्ते उद्भवस्तत्र जायते साङ्ख्यायन् प्रसादाप्तं श्रीमद्भागवतं पुरा बृहस्पतिर्दत्तवान्मे तेनाहं कृष्णवल्लभ आख्यायिकां च तेनोक्तां विष्णुरातनुबोधतां ज्ञायते सम्प्रदायोऽपि यत्र भागवतः श्रुते बृहस्पतिरुवाच इच्छाचक्रे यदा कृष्णो मायापुरुषरूपधे ब्रह्मा विष्णुशिभस्यापि रजसत्त्वतभोगुणैः पुरुषास्त्रयन् उत्तस्थो अधिकारान् तदादिशन् उत्पत्तौ पालने चैव शृङ्हारे प्रक्रमेण तान् ब्रह्मा तु नाभिकमलाद् उत्पन्नस्तम् व्यजिज्ञपन् ब्रह्मोवाच नारायणादिसुपुरुषं परमात्मन्नभोस्तुते त्वया सर्गे नियुक्तोऽस्मि पापीयान् मां रजो गुणः तस्मृतौ नैव बाधेत तथैव कृपया प्रभू